गर्भा मे वत्स वत्स मेत्री अवि चमे मेत्री त्रवि चवीतिवी चमे मे दिख्यवाट दित्यवाच्च दित्यवाडिति दित्य वाट समे मे दिव्यौ दित्यौ ही च समे मे पञ्चाभिः पञ्चाभिश्च पञ्चाविरिति पञ्च कविः समे मे पञ्चावी पञ्चावी च पञ्चावीति पञ्च अभि चमेः मे त्रिवत्सः त्रिवत्सश्च त्रिवत्स इति त्रि वत्सः चमेः मे त्रिवत्सा त्रिवत्सा च त्रिवत्स्येति त्रि वत्सा चमेः मे तुर्यवाट तुर्यवाच्च तुर्यवाडिति तुर्यवाट क्षमे मे तुर्यौ हि तुर्यौ हि च क्षमे मे पष्ठवात् पष्ठवाच्च पष्ठवादिति पष्ठवात् क्षमे मे पष्ठौ हि पष्ठौ हि च क्षमे म उक्षा उक्षा च मे वसा च समे म ऋषभः ऋषभश्च समे मे वेहत् वेहच्च समे मे रड्वान् अनड्वान् च समे मे धेनुः धेनुश्च समे मा आयुः आयुर्यज्ञेन यज्ञेन कल्पताम् कल्पताम् प्राणः प्राणो यज्ञेन प्राण इति प्र अनः यज्ञेन कल्पताम् अपानो यज्ञेन अपान इत्यप यज्ञेन कल्पताम् कल्पताम् ज्ञानः ज्ञानो यज्ञेन ज्ञान नः यज्ञेन कल्पताम् कल्पताञ्चक्षुः चक्षुर्यज्ञेन यज्ञेन कल्पताम् कल्पतागः श्रोत्रम् श्रोत्रम् यज्ञेन यज्ञेन कल्पता कल्पताम् मनः मनो यज्ञेन यज्ञेन कल्पताम् कल्पताम् वाच वा यज्ञेन यज्ञेण कल्पताम् कल्पतामात्मा आत्मा यज्ञेन यज्ञेन कल्पताम् कल्पताम् यज्ञः यज्ञो यज्ञेन यज्ञेन कल्पताम् कल्पतामिति कल्पता गर्भाश्चे वत्साः